अथ त्रिपञ्चाशः सर्गः एवमुक्तावसिष्ठेरशबला शत्रुसूदना विदधे कामधुक्कामान् यस्य यस्येऽप्सितम् यथा इक्षून् मधून्स्तथा लाजान्मैरेयांश्च वरासवान् पानानि च महार्हाणि भक्ष्यांश्चोच्चावचानपि उष्णाढ्यस्य उदनस्यात्र राशयः पर्वतोपमाः मृष्टान्यन्नानि सूपांश्चदधिकुल्यास्तथैव च नानास्वादुरसानाम् च खाण्डवानाम् तथैव भोजनानि सुपूर्णानि गौडानि च सहस्रशः सर्वमासीत् सुसन्तुष्टम् हृष्टपुष्टजनायुतम् विश्वामित्रबलम् रामवसिष्ठेन राम सुतर्पितम् विश्वामित्रो हि राजर्षिहृष्टपुष्टस्तदाभवत् सान्तः पुरवरो राजा स ब्राह्मण पुरोहितः सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् पूजितोऽहम् त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः श्रूयतामभिधास्यामि वाक्यम् वाक्यविशारदा गवांशतसहस्रेण दीयताम् शबला मम रत्नम् हि भगवन्नेतद्रत्नहारी च पार्थिवः तस्मान्नेष बलाम् देहि ममैषा धर्मतो द्विजा एवमुक्तस्तु भगवान् वसिष्ठो मुनिपुङ्गवः विश्वामित्रेण धर्मात्मा प्रत्यवाच प्रत्युवाचमहीपतिम् नाहंशतसहस्रेण नापि कोटिशतैर्गवा राजन्दास्यामि शबलाम् राशिभिरजतस्य वा नरीत्यागमर्हेयम् वत्सकाशादरिन्दमा शाश्वतीशबला मह्यम् कीर्तिरात्मवतो यथा अस्याम् हव्यम् च काव्यम् च प्राणयात्रा तथैव च आयत्तमग्निहोत्रम् च बलिर्होमस्तथैव च स्वाहाकारमषट्कारौ विद्याश्च विविधास्तथा आयत्तमत्र राजर्षे सर्वमेतन्न संशयः सर्वस्वमेतत्सत्येन मम तुष्टिकरी तथा कारणैर्बहुभीराजन्न दास्येषबलान्तव वसिष्ठेनैव मुक्तस्तु विश्वामित्रोऽब्रवीत्तदा संरब्धतरमत्यर्थम् वाक्यम् वाक्यविशारदः हैरण्यकक्षग्रैवेयान् सुवर्णाङ्कुशभूषितान् ददामि कुञ्जराणाम् ते सहस्राणि चतुर्दशा हैरण्यानाम् रथानाम् च श्वेताश्वानाम् चतुर्युजाम् ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् हयानाम् देशजातानाम् कुलजानाम् महौजसाम् सहस्रमेकम् दश च ददामि तव सुव्रता नानावर्णविभक्तानाम् वयस्थानाम् तथैव च ददाम्येकाङ्गवाम् कोटिम् शबला दीयताम् मम यावदिच्छसि रत्नानि हिरण्यम् वा द्विजोत्तमा तावद्ददामि ते सर्वम् दीयताम् शबला मम एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता न दास्यामीति शबलाम् प्राहराजम् कथञ्चन एतदेव हि मे रत्नमेतदेव हि मे धनम् एतदेव हि सर्वस्वमेतदेव हि जीवितम् दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः एतदेव हि मे राजन् विविधाश्च क्रियास्तथा अतो मूलाः क्रियाः सर्वा मम राजन्न संशयः बहुना प्रलापेन न दास्ये कामदोहिनी इत्यार्शे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिपञ्चाशः